मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायम् तर्टि सवेन् नृसिंहमाहात्म्यं श्रीगणेशाय नमः मुद्गल उवाच द्विदे पुत्रौ महावीर्यो कश्यपात् संध्याया मृदुदानेन दैत्यौ परमदारुणौ ताभ्यां तप्तं तपोकोरं दिव्यवर्षसहस्रकं तयोस्तपः प्रभावेण ब्रह्मादु भवद। मरणं सर्वभूदेभ्यो न भवेदीप्सितं वरं ताभ्यां दत्वा स्वयं ब्रह्मा स्वस्थानमगमत्पुनः सायङ्कालं च शुष्कार्द्रं विस्मरन्तौ महासुरौ तदेव मरणस्थानं तयोर्जातं प्रजापदे वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जिदं हिरण्यकशिपुज्येष्ठश्चक्रे वैराज्यमुत्तमं कर्ममार्गं द्विषन् सर्वं देव देब्राह्मण दुखद राज्य चक्रे सुदुषात् परस्त्री मध्यलालसः, उपेशन संयुक्ता देवा इंद्रपुरोग ब्रह्मेस्कृत शरण्यम विष्णु तत विष्णुना त्र धृतम रूपम भयप्रदम नारसिंहं महोग्रं वै सर्वेभ्यो भयदायकम् आययौ दैत्यराजस्य नगरे क्रोधसंयुधः शब्दैः स भुवनं घोरैर्नादयामास तत्क्षणाद भीदादैत्यगणाः सर्वे शशंसुस्तस्य चेष्ठितम् राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुस्वयम् दैत्यैः समावृतो योद्धुं ययौ या तेन महाबलः क्रूरसमागदसोऽपि नृसिंहाकृदिधारकः मेरुमन्दरसङ्काशं वपुर्यस्य विराजितं तेजसा वह्नि सङ्काशो योद्धुकामो सुरैः प्रभो प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसप्तमः नृसिंहं योधयामास शास्त्रास्त्रैर्मभेदिभिः नृसिंहेन हदैत्या बहवो रणमण्डले शोणितौखवहानद्यः सम्प्रवृत्ता दिशो दश खड्गादिभिर्महास्त्रैश्च नखैर्युक्तः स देवराट नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः वैष्णवं ज्ञानमत्यन्तं प्रादुर्भूदं विशेषतः एतस्मिन्नन्तरे तत्र गदयात् ताडितः प्रभुः नृसिंहो दैत्यराजेन पदिदो मूर्चया पतितो मूर्च्छया भृशं द्विमुहूर्तात् सुसम्भूतस्वस्थदेहो महाबलः अशक्तं मानया मासात्मानं तेन पलायता हिरण्यकशिपुः सर्वैर्विजयी स्वगृहं ययौ चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः पितरं बोधयामास विष्णुमानन्दरूपिणं शरणं याहि सर्वत्र समं दैत्यपदेऽधुना पुत्रस्य वचनं श्रुत्वा क्रोधाविष्ठो महासुरः मुष्टिना ताडयामासं शत्रुमेकिं समाश्रितः तथापि दृढभावेन नचचालस च चालसवैष्णवः प्रह्लादश्चाधिकाम् भक्त्रिं चकारप्रेमसंयुधः ततो जले स्थले ह्यग्नौ हिरण्यकशिपुस्वयं विषय सोऽपीडयत्पुत्रं निष्फलो विष्णुना कृतः शस्त्रैरस्त्रादिभिः पुत्रमारणाय समुद्यतः प्रह्लादो न ममारासौ रक्षितो विष्णुना सदा एवंपि दुःसुदस्यापि द्वन्द्वे प्राप्तप्रजापदे काले प्रान्ते तु दु किञ्चिद्वै नृसिंहचरितम् शृणु वैकुण्ठे सुखमासीनं नारायणमनामयम् ययौ तत्र नृसिंहस्थम् प्रणनामभयातुरः वृत्तान्तम् नृहरेस्तस्य श्रुत्वा सोऽपि सुविस्मितः कारणं चिन्तयामास विचारेण जनार्दनः गणेशं वै विस्मृतवान् तदो दैत्यो न निर्जितः अष्टाक्षरं गणेशस्य मन्त्रं तस्मै ददौ स्वयं वनेशोऽपि समासीनस्तताप परमं तपः निराहारेण ध्यायत्तं गणपं हृदि एकवर्षे गदे तत्र ययविघ्नपदि स्वयं वरेण च्छन्दयामास नृसिंहं भक्तमुत्तमम् प्रणम्या पूज्य विघ्नेशं परमेशं कृताञ्जलिः सूक्तैर् गणेश संज्ञैस्तं तुष्टाव नृहरिस्वयं यया चे देवदेवेशं भक्रिं ते देहि विघ्नप जयं दैत्यरणे स्वामिंस्तधेदि गणपोऽब्रवीद अन्तर्धानं गदसद्यो गणेशो भक्त्रपालकः नृसिंहो हर्षसं युक्तो दैत्यं हन्तुं व्ययौ ततः यदस्मिन्नन्तरे दक्ष हिरण्यकशिपुस्वयं प्रह्लादं हन्तुमारेभे स्वयं खड्गधरोऽभवद प्रह्लादेन स्मृतो विष्णुप्रकटो भू तदन्तरे नृसिंहकालरूपश्च तलेना ताडयत्खिलम् दैत्यराजस्तु लेभे मूर्छिदस्भे संहाबल कदा धृत्वा नृसींहुयुे सैनिक सह नृसींहांहा बहवस्तः सैन्यं तुर्कशिपो परं तदक्रोधपरीताङ्गः सायङ्काले दिदेः सुदं धृत्वा न खैर्महादैत्यं धारयामास केशवः न शुष्कार्द्रमयैश्वस्य न खैस्तेन विदारिदः ममारदैत्यराजोऽपि देवास्थं तुष्टुवुर्हरिम् तुदः विष्णुर् विष्णुर्नृसिंहो गणपं स्मरन् अन्तर्धानं ययौ देवास्ते स्वपदं ययुः इदं नरहरे प्रोक्तम् माहात्म्यं यशृणोति वा पठति प्रभवेत्तस्य सर्वदं नात्रसंशयः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषमौद्गले महापुराणे एक द्वितचरि नृसींसमत्म्य नाम ओम